ध्यायः अष्टकोवाच कतरस्त्वनयोः पूर्वं देवानामेति सात्मताम् उभयोर्धावतो राजन् सूर्याचन्द्रमसोरिव ययातिरुवाच अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः ग्राम एव वसन् भिक्षुस्तयोः पूर्वतरं गतः अवाप्यदीर्घमायुस्तु यः प्राप्तो विकृतिम् चरेत् तप्यते यदितत्कृत्वा चरेत्सोऽन्यत्तपस्ततः पापानाम् कर्मणाम् नित्यम् बिभियाद्यस्तु मानवः सुखमप्याचरन्नित्यम् सोऽत्यन्तम् सुखमेधते तद्वैनुशंसम् तदसत्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः अर्थोऽप्यनीशस्य तथैव राजंस्तदार्जवं समाधिस्तदार्यम् अष्टक उवाच केनासि हूतः प्रहितोऽसि राजन् युवास्त्री दर्शनीयः सुवर्चाः स्थानमस्ति ययातिरुवाच इमम् भौमम् नरकम् क्षीणपुण्यः प्रवेष्टुमुर्वीम् गगनाद्विप्रहीणः उक्त्वाहम् वः प्रपतिष्ठ्याम्यनन्तरम् त्वरन्ति माम् लोकपा ब्रह्मणो ये सताम् सकाशे तु वृतः प्रपातस्ते सर्वे शक्राच्च लब्धो हि नरेन्द्र अष्टकोवाच च्छामि त्वाम् मा प्रपतप्रपातम् यदि लोकाः पार्थिवसन्ति मेऽत्र यद्यन्तरिक्षे यदि वादिवि स्थिताः क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये ययातिरुवाच यावत्पृथिव्याम् विहितम् कवाश्वम् सहारण्यैः पशुभिः पार्वतैश्च तावल्लोकाद्विते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह अष्टकौवाच तांस्ते ददामि प्रपतप्रपातम् ये मे लोकादिविराजेन्द्रसन्ति यद्यन्तरिक्षे यदि वादिविश्रितास्तानाक्रमक्षिप्रमपेतमोहः ययातिरुवाच नास्मद्विधो ब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य यथा प्रदेयम् सततम् द्विजेभ्यस्तथा ददम् पूर्वमहम् नरेन्द्र नाब्राह्मणः कृपणो जातु जीवेत् याच्चापि स्यात् ब्राह्मणी वीरपत्नी सोहं नैवाकृतपूर्वम् चरेयम् विधित्समानः किमु प्रतर्दन उवाच पृच्छामि त्वाम् स्पृहणीयरूप प्रतर्दनोऽहम् यदि मे सन्ति लोकाः यद्यन्तरिक्षे यदि वादिविश्रिताः क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये ययातिरुवाच सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्तसप्ताप्यहानि मधुच्युतो घृतपृक्ता विशोकास्तेनान्तवन्तः प्रतिपालयन्ति प्रतर्दन उवाच तांस्ते ददानिमाप्रपतप्रपातम् ये मे लोकास्तव ते वै भवन्तु यद्यन्तरिक्षे यदि वादिविश्रितास्तानाक्रमक्षिप्रमपेतमोहः ययातिरुवाच न तुल्यतेजाः सुकृतम् कामयेत् योगक्षेमम् पार्थिवपार्थिवः सन् दैवादेशादापदम् प्राप्य विद्वांश्चरे नृशंसम् न धर्म्यम् मार्कं यतमानो यशस्यम् कुर्यान्नृपो धर्ममवेक्षमाणः न मद्विधो धर्मबुद्धिः प्रजानन् कुर्यादेवम् कृपणम् माम् यथाथ कुर्यादपूर्वम् न कृतम् यदन्यैर्विधित्समानः किमु तत्र साधु धर्माधर्मौ सुविनिश्चित्य सम्यक् कार्याकार्येष्वप्रमत्तश्चरेत्यः सवै वै धीमान् सत्यसन्धः कृतात्मा राजा भवेल्लोकपालो महिम्ना यदा संशयो धर्मकार्ये कामार्थे वा यत्र विन्दन्ति सम्यक् कार्यं तत्र प्रथमम् धर्मकार्यं न तौ कुर्यादर्थकामौ स धर्मः ब्रुवाणमेनम् नृपतिम् ययातिम् नृपोत्तमो वसुमानब्रवीत्तम् श्री महाभारते श्रीमहाभार आदिपर्व संभवपर्वि द्विनवतितमो आयातेतमोध्याय